ब्रह्माण्डपुराणम् उत्तरभागम् अध्यायम् टु शिवपुरवर्णनं वायुरुवाच असाधारणवृत्तैस्तु हुदशेषादिभिर्जनैः धर्मा वैशेषिकाश्चैव आचीर्णा सूक्ष्मदर्शिभिः ते देवैः सह तिष्ठन्ति महर्लोकनिवासिनः चतुर्दशैदे मनवः कीर्तिता कीर्तिवर्धनाः कीर्ति अतीता वर्धमानाश्च तथैवानागताश्च ये देवाश्च ऋषयश्चैव मनवः सर्वे स्युक्ता मयातीतमहर्लोकं समाश्रिताः ब्राह्मणैः क्षत्रियैर्वैश्यैर्धार्मिकैः सहितैः सरैः तैस्तथा कार्यभिर्युक्तैः श्रद्धावद्भिरदर्पितैः वर्णाश्रमाणान्धर्मेषु श्रौध स्मार्तेषु संस्थितैः विनिवृत्ताधिकारस्ते यावन्मन्वन्तरक्षयः ऋषय ऊचुः महर्लोकेऽधि यत्प्रोक्तं मादरिष्वं त्वया विभोः प्रतिलोके तु कर्तव्यं तत्र किं समधिष्ठितं प्रोवाचमधुरं वाक्यं यथा तत्त्वेन तत्त्वविद चतुर्दशैव स्थानानि निर्मितानि महर्षिभिः लोकाख्यानि तु यानि स्युर्येषां तिष्ठन्ति मानवाः सप्त तेषु तु सप्त भूरादयस्तु सत्यान्ताः सप्त लोकाकृतास्त्विहा अकृतानि तु सप्तैव प्राकृतानि तु यानि वै स्थानानि स्थानिभिस्साधं कृतानि तु निबन्धनं पृथिवी चान्दरीक्षं च दिव्यं यच्च महस्मृतम् स्थानान्येतानि चत्वारि स्मृतान्यावर्णकानि च क्षयातिशययुक्तानि तथा युक्तानि च क्षते यानि नैमित्तिकानि स्युस्तिष्ठन्त्याभूतसम्प्लवाद् जनस्तपश्च सत्यं च स्थानान्येतानि त्रीणि तु एकान्तिकानि तानि स्युस्तिष्ठन्तिहाप्रसंयमाद व्यक्तानि तु प्रवक्ष्यामि भूर्लोकः प्रथमस्तेषां द्वितीयस्तु भुवः स्मृतः स्वस्तृतीयस्तु विज्ञेयश्चतुर्थो महस्मृतः जनस्तु पञ्चमो लोकस्तपश्चो विभाव्यते सत्यस्तु सप्तमो लोको निरालोकस्ततः परं भूरि दिव्याहृदे भूर भवद। ततोऽभवद भुव इत्युक्त अन्तरिक्षं तदो भवद तृतीयं स्वरिदित्युक्तो दिवं प्रादुर्बभुवः व्याहारैस्त्रिभिरेतैस्तु ब्रह्मलोकमकल्पयत ततो भूः पार्थिवो लोगो ह्यन्तरिक्षं भुवस्मृदं स्मृतं वैदिवं वै पुराणे निश्चयो भूतस्याधिपतिश्चाग्निस्तदो भूतपदि स्मृतः वायुर्भुवश्चाधिपतिस्तेन वायुर्भुवस्पतिः दिवस्य सूर्योऽधिपतिस्तेन सूर्यो, सूर्यो दिवस्पतिः महे दिव्याहृतेनैव महर्लोकस्तदो भवद कारणां देवानां विवृत्ता देवाय जनस्थ पंचम लोग वै ज प्रजानां जननाजन येते ते स्वयंवाद्या पुरास्ता परकीर्ति कल्पयेदे यदा लोके प्रतिष्ठन्ति तदा तपः ऋभुः सनत्कुमाराद्या यत्रा सन्नूर्ध्वरेतसः तपसा भाविदात्मानस्तत्र सन्धिदि वा तपः सत्येति ब्रह्मणशब्दसत्तामात्रस्तु सस्मृतः ब्रह्मलोकस्ततः सत्यः सप्तमः सदुभास्वरः गन्धर्वाप्सरसो यक्षागुह्यकास्तु स राक्षसाः सर्वभूतपिशाचाश्च नागाश्च सहमानुषैः स्वर्लोकवासिनः सर्वे देवा भुवि मरुदो मातरिश्वानो रुद्रादेवास्तथाश्विनौ अनिकेतान्तरिक्षास्ते भुवर्लोकादिवौकसः आदित्या ऋभवो विश्वे साध्याश्च पितरस्तथा ऋषयोङ्गिरसश्चैव भुवर्लोकं समाश्रिताः ये दे वैमानिका देवास्ताराग्रहनिवासिनः आरम्भन्ते दुतन्मात्रै तन्मात्रै शुद्धास्तेषां परस्परं शुक्राद्याश्चक्षुशान्ताश्च ये व्यतीदा भुवं श्रुताः महर्लोकश्च दुर्धस्तुतस्मिंस्ते कल्पवासिनः इत्येते क्रमशः प्रोक्ता ब्रह्मव्याहारसम्भवाः भूर्लोकप्रथमालोकामहरन्ताश्च ते स्मृताः तान् सर्वान् सप्तसूर्यास्ते अर्चिभिर्निर्दहन्ति वै मारीचिक्कश्यपो दक्षस्तथा स्वायम्भुवो गिराः भृगुफुलस्त्यपुलः क्रदुरित्येवमादयः प्रजानां पतयः सर्वे वर्तन्ने निःसत्त्वा निर्ममाश्चैव तत्र देह्यूर्ध्वरे दशः ऋभुःसनत्कुमाराद्या वैराजास्ते तपोधनाः मन्वन्तराणां सर्वेषां सावर्णानां तदस्मृताः चतुर्दशानां सर्वेषां पुनरावृत्तिहेतवः योगं तपश्च सत्त्वं च समाधाय तदात्मनि षष्ठे काले निवर्तते तदा प्राहुर्विपर्ययाद सत्यस्तु सप्तमो लोको ह्य पुनर्मार्गगामिनां ब्रह्मलोकसमाख्यादो ह्यप्रतीकादलक्षणः पर्यासपरिमाणेन भूर्लोकस्समभिस्मृतः भूम्यन्तरं यदादित्यादन्तरिक्षं भुव सूर्यध्रुवान्तरं यच्च स्वर्लोको दिवस्मृतः ध्रुवाजनान्तरं यच्च महर्लोकः स उच्यते व्याख्यादाः सप्तलोकास्तु तेषां वक्ष्यामि सिद्धयः भूर्लोकवासिनः सर्वे उन्नादास्तु रसात्मकाः भुवि स्वर्गे च सर्वे सोमपा आजपाश्च चतुर्थे येऽपि वर्तन्ते महर्लोकं समाश्रिताः विज्ञेया मानसि तेषां सिद्धिर्वै पञ्चलक्षणा सद्यश्चोत्पद्यते तेषां मनसा सर्वमीप्सितं ये ते दे देवा ये ये परस्परं, देवै यज्ञैः सर्वैः चाप्यनागताः प्रथमानन्तरोद्दिष्टा अन्तरा साम्प्रतैः पुनः निवर्तते हि सम्बन्धो दीते देवगणे तपः विनिवृत्ताधिकाराणां सिद्धस्तेषां तु मानसी तेषां तु मानसी ज्ञेया शुद्धा सिद्धिः परस्पराद् उक्ता लोकास्तु चत्वारो जनस्यानुविधिस्तथा समासेन मया विप्राभूयस्तं वर्तयामिव वायुरुवाच मरीचिक्कश्यपो दक्षो वसिष्ठश्चाङ्गिरा भृगुः पुलस्थ्यपुलहश्चैव क्रदुरित्येवमादयः पूर्वं ते सम्प्रसूयन्ते ब्रह्मणो मानसायिह ततः प्रजाप्रतिष्ठाप्य जनमेवाश्रयन्ति ते कल्पदाहेषु तु सदा तथा कालेशु तु वै घूरादिषु महां भृशं व्याखा संवर्तकाने प्राप्नुंद सवासना गणसर्वे सर्वे निवासी महर्लोकेषु दीप्तेषु जनमेवाश्रयन्ति ते सर्वे सूक्ष्मशरीरास्ते तत्रस्ताश्च भवन्ति ते तेषां ते तुल्यसामर्थ्यास्तुल्यमूर्तिधरास्तथा जनलोके विवर्तन्ते संवर्त जगद व्युष्ठायां तु रजन्यां वै ब्रह्मणोऽव्यक्रयो नितः प्रसूयन्ते पूर्ववत्क्रमशस्त्विः स्वायम्भुवादय सर्वे मरीच्यन्तास्तु साधकाः देवास्ते वै पुनस्तेषां जायन्ते निधनेष्विह यामाधयक्रमेणैव कनिष्ठाध्याः प्रजापदेहे पूर्वं पूर्वे प्रसूयन्ते पश्चिमे पश्चिमास्तथा देवान्वये देवता हि सप्तसम्भूत व्यतिधा कल्पजास्तेषां तिस्रश्रेष्ठास्तथापरि आवर्तमानादेवास्ते क्रमेणैतेन सर्वशः गत्वा जवजवीभावं दश पुनः पुनः तदस्ते वैगुण सर्वे दृष्ट्वा भावेष्व नित्यतां भाविनोऽर्थस्य च बलात् पुण्यख्यादिबलेन च निवृत्तवृत्त्य सर्वेऽत्र स्थासुमनसस्तथा वैराजमुपपद्यन्ते लोकानुत्सृज्य तं गदा तदो ने नैव कालेन नित्ययुक्तास्तपस्विनः धर्मस्य तेषां ते जज्ञिरेऽन्वये इहोत्पन्नास्तदस्ते वै स्थानान्या पूरयन्त्युग देवत्वे जर्षित्वे जनुष्यत्वे च सर्वशः एवं देवगणः सर्वे दशकृत्वो निवर्त्य वैराजे शूपपन्नास्ते दश तिष्ठन्त्युपप्लवान् पूर्णोऽपूर्णो ततः कल्पे स्थित्वा वैराजके पुनः ब्रह्मलोके विवर्तन्ते पूर्वपूर्वक्रमेण तु एतस्मिन् ब्रह्मलोके दु कल्पे वैराजगे गदे वैराजपुनरव्यक्ते कल्पस्थानमकल्पयद एवं पूर्वानुपूर्व्येण ब्रह्मलोकगते न वै वैराजे शूपपद्यन्ते दशकृत्वो विवर्त्यत एवं देवयुगानि कव्यतीतानि सहस्रशः निधनं ब्रह्मलोके दुर्गतानामृषिभिः सह न शक्यमानि कुर्व्येण तेषां वक्तुं प्रविस्तरम् न सन्देहो यथावत्कथितं मया तदुपश्रुत्य वाक्यार्थमृषयसंशयान्विताः सुदमाहुपुराणज्ञं व्यासशिष्यं महामतिं ऋषय ऊचुः वैराजास्ते यदाहरा यत्सत्त्वाश्च यद यदाश्रयाः तिष्ठन्ति चैव यत्कालं तन्नो सुधपौराणिको वाक्यं विनये नेदमब्रवीद तदप्राप्यतु सर्वेषां शुद्धबुद्धिं तमाश्रयद आभूतसम्ब्लवास्तत्र दश तिष्ठन्ति ते ज्वराः सर्वे सूक्ष्मशरीरास्ते विद्वांसो खनमूर्तयः स्थितलोकस्थितत्वाच्च तेषां भूतं न विद्यते ऊचु सनत्कुमाराध्या सिद्धास्ते योगधर्मिणः एवमेव महाभागाः प्रणवं सम्भ्रविष्यः ब्रह्मलोके प्रवर्तामस्तन्नश्रेयो भविष्यति एवमुक्त्वा तदा सर्वे ब्रह्माण्डाध्यवसायिनः या तदात्मानो वर्तन्ते योगधर्मिणः तत्रैव सम्प्रलीयन्ते चान्दा दीपर्चिषो यथा ब्रह्मकायमवर्तन्त पुनरावृत्तिदुर्लभं लोकं तं समनुप्राप्य सर्वे ते भावनामयम् आनन्दं ब्रह्मण प्राप्य अमृतत्वायरे गदाः वैराज्येभ्यस्तदैवोर्ध्वमन्तरे षड्गुणे ततः ब्रह्मलोकसमाख्यातो यत्र ब्रह्म ते सर्वे प्रणवात्मानो बुद्धिशुद्धतया स्थिताः आनन्दं ब्रह्मण प्राप्य ह्यमृतत्वं भजन्त्युद द्वन्द्वैस्तेनाभिभूयन्ते भावत्रयविवर्जिताः आधिपत्यं विना तुल्या ब्रह्मणस्ते महौजसः प्रभाव विजय प्रभावविजयैश्वर्यस्थितिवैराग्यदर्शिनः ते ब्रह्मलौकिकाः सर्वे गतिं प्राप्य निवर्तिनीं ब्रह्मणा सहदेवैश्च सम्प्राप्ते प्रतिसञ्चरे तपसोऽन्ते क्रियात्मानो बुद्धावस्थामनीषिणः अव्यक्ते सम्प्रलीयन्ते सर्वे ते क्षणदर्शिनः इत्येतदमृतं शुक्रं नित्यमक्षयमव्ययम् देवर्षयो ब्रह्मसत्रं सनातनमुपासदे अपुनर्मारकादीनां तेषाञ्चरेतसां कर्माभ्यासकृतां श्रद्धां वेदान्तेषूपलक्ष्यते दे। तत्र देभ्यासिनो युक्ता परां काष्ठामुपासदे इत्वा शरीरं पाप्मानमृतत्वायते गदाः वीदरागाजितक्रोधानिर्मोहासत्यवादिनः शान्ता प्रणिहितात्मानो दयावन्दो जितेन्द्रियाः निःसङ्गाशु चयश्चैव तेषामभ्रंशिनो लोका अप्रमेयसुखा स्मृताः एतद्ब्रह्मपदं दिव्यं परमे व्योम्निक्स्वरं यत्र गत्वा न शोचन्ति ह्यमरा ब्रह्मणा सह ऋषय ऊचुः कस्मादेषु परार्धंश्च कश्चैव पर उच्यते एतद् वेदितुमिच्छामस्तन्नो निगतसत्तमासूत उवाच शृणुध्वं परार्धस्य परिसंख्याम परस्य च एकं दशशतं चैव सहस्रं चैव सङ्ख्यया विज्ञेयमासहस्रं तु सहस्राणि दश अयुधम् एकं शतसहस्रं ध्वनियुधं प्रोच्यते बुधैः तदा शतसहस्राणां दशप्रयुधमुच्यते दे। तदा दशसहस्राणाम् अयुधं कोटिरुच्यते अर्बुदं दशकोट्यस्तु ह्यब्जं कोटिशतं विदुः सहस्रमापि कोटिनां कर्वमाहुर्मनीषिणः दशकोटिसहस्राणि निखर्वमिदि तं विदुः शतं कोटिसहस्राणां शङ्त्यभिधीयते सहस्रं द्विसहस्राणां कोटीनां पद्ममुच्यते सहस्राणि सहस्राणां कोटीनां दशधा पुनः गुणितानि समुद्रं वैप्राहुसङ्ख्याविधो जनाः कोटिसहस्रनियुधमन्ध्यमित्यभिधीयते कोटिसहस्रप्रयुधं मध्यमित्यभिसंनिधं कोटिकोटिसहस्रं तु परार्थ इति कीर्त्यते परार्थं द्विगुणं चापि परमाहुर्मनीषिणः सदमाहुः परिवृढं सहस्रं परिपत्मकं विज्ञेयमयुधं तस्मान्नियुधं प्रयुधं ततः अर्बुदं न्यर्बुदं चैव कर्बुदं च ततस्मृतं कर्वं चैव निखर्वं च शङ्कुः पद्मं तथैव च समुद्रमन्त्यं मध्यं च परार्धं च परं ततः एवमष्टादशयितानि स्थानानि गणनाविधौ शतादीनि विजानीयत्संज्ञितानि महर्षिभिः कल्पसङ्ख्याप्रवृत्तस्य परार्थो ब्रह्ममस्मृतः तावच्छेषोऽपि कालोऽस्य तस्यान्ते प्रतिष्ठति पर परार्थश्च सङ्ख्यादसङ्ख्याया मया यस्मादस्य परं वीर्यं परमायुः परं तपः पराशक्तिपरो धर्मपरा विद्यापरा धृतिः परं ब्रह्मपरं ज्ञानं तस्मात् परतरं भूतं ब्रह्मणो यन्न विद्येते परेऽस्ति दोह्येष परः सर्वार्थे उततः परं सङ्ख्यातस्तु परो ब्रह्मा तस्यार्थस्य परार्थता सङ्ख्येयं चाप्यसङ्ख्येयं सततं चापि तान्त्रिकं सङ्ख्येयं सङ्ख्यया दृष्टमपरार्थाद्विभाष्यते <Santhi> राशौ दृष्टेन सङ्ख्यास्ति तदसङ्ख्यास्तु लक्षणम् आनन्द्यं सिकताद्येषु हृष्टं जान्यं त्वलक्षणम् ईश्वरैस्तत्प्रसङ्ख्यानं शुद्धत्वाद्दिव्यदृष्टिभिः एवं ज्ञानप्रदिष्टत्वात् सर्वं ब्रह्मानुपश्यति यद श्रुत्वा तु ते सर्वे नैमिषेयास्तपस्विनः बाष्पर्याकुलाक्षास्तु प्रकर्षाद्गद्गदस्वराः पप्रच्युर्मादारिश्वानं सर्वेदे ब्रह्मवादिनः ब्रह्मलोकस्तु भगवान् यावन्मात्रान्तरे प्रभो योजनाग्रेण सङ्ख्यादस्साधनं योजनस्य तु क्रोशस्य च परिमाणं श्रोतुमीच्छामतत्वतः तेषां तद्वचनं श्रुत्वा माधरिष्व विनीतवत् उवाच मधुरं वाक्यं यथा दृष्टं यथा क्रमम् वायुरुवाच एतद्वोहं प्रवक्ष्यामि शृणुध्वं मे विवीक्षितम् अव्यक्ताद्व्यक्तभागो वै महान् स्थूलो विभाष्यते दशैव महतो भागाभूतादिस्थूल उच्यते दे। दशभागाधिकं च अभिभूतादिपरिमाणकं परमाणुसुसूक्ष्मस्तु भावग्राह्यो न चक्षुषा यदभेद्यतमं लोके विज्ञेयं परमाणुवद जालान्तरगते भा नैं यत्सूक्ष्मं दृश्यते रजः प्रथमं तत्प्रमाणानां परमाणुं प्रचक्षते अष्टानां परमाणूनां समावायो यदा भवेत् त्रसरेणुसमाख्यातस्तत्पद्मरज उच्यते त्रसरेण बोध ये पृष्टौ रथरेणुस्तु सस्मृतः तेऽप्यष्टौ समवायस्था बालाग्रां तत्स्मृतं बुधैः बालाग्राण्यष्टलिक्षा स्याद्यूकालिक्षाष्टकं भवेद् यूकाष्टकं यवप्राहुरङ्गुलं तु यवाष्टकम् द्वादशाङ्गुलपर्वाणि वितस्तिस्थानमुच्यते रत्निश्चाङ्गुलिपर्वाणि विज्ञेयो ह्येकविंशतिः चत्वारो विंशतिश्चैव हस्तस्यादङ्गुलान्यदौ केशोर्द्विरत्निर्विज्ञेयो द्विचत्वारिं शदङ्गुलः षण्णवत्यङ्गुलं चैव संख्याया मादानं धनुषस्मृतम् धनुर्दण्डयुगं नालीतुल्यान्यस्तैस्तदाङ्गुलैः धनुषां त्रिशतं नल्वमाहुसंख्याविदो जनाः धनुसहस्रे द्वे चापि गव्यौतिरुपदिश्यते अष्टौ धनुसहस्राणि योजनं तु विधीयते एतेन धनुषा चैव योजनं तु समाप्यते एतत्सहस्रं विज्ञेयं चक्रकोशान्तरं तथा योजनानां च सङ्ख्यादं सङ्ख्याज्ञानविशारदैः येदेन योजनाग्रेण शृणुध्वं ब्रह्मणोन्तरे महीतलात्सहस्राणां राधादूर्ध्वं दिवाकरः दिवाकरात् सहस्रे तु शदे निशाकरः पूर्णं शतसहस्रं तु योजनानां निशाकराद नक्षत्रमण्डलं कृष्णमुपरिष्टात् प्रकाशत शतं सहस्रं सङ्ख्यातमेतद्विगुणितं पुनः ग्रहान्तरमथैकैकमूर्ध्वं नक्षत्रमण्डलात् ताराग्रहाणां सर्वेषां मध्यस्था चरदे बुधः तस्योर्ध्वं चरदे शुक्रस्तस्मादूर्ध्वं च लोहितः तद बृहस्पतिश्च ऊर्ध्वं तस्मादूर्ध्वं शनैश्चरः ऊर्ध्वं शतसहस्रं तु योजनानां शनैश्चराद् सप्तर्षिमण्डलं कृष्णमुपरिष्टात् ऋषिभ्यस्त सहस्रण सदा दूर्धं विभाष्योसौ तारा दिव्ये विमाने विमा ह्रस्वे उतन पादपुत्रसौ मेढ़ीभूद ध्रुवो दिवैक्यो व्याख्याद योजनायमया मन्व यत्रैव लौकिकी वर्णाश्रमभ्य इष्टा लोके दे। सर्वास देवोनीति दुस्स वैस्मृता त्रैलोक्यमे दख्यादमदर्धोधत ध्रुवा धूर्धम महर्लोको यीस्ते कलपवासीन एका योजना गौड़ीशावो ग द्विकोट्यां तु महर्लोकाज्जनलोको व्यवस्थिताः यत्र ते ब्रह्मणपुत्रा द्यक्षाध्यात् सातका स्मृताः वैराजा यत्र ते देवा भूदताः विवर्जिताः षड्गुणं तु तपो लोकात् सत्यलोकान्तरं स्मृतम् अपुनर्मारको नाम ब्रह्मलोकस्य उच्यते यस्मिन्नच्यवदे भूयो ब्रह्मणं य उपासते एककोट्यर्योजनानां पञ्चाशन्नियुतानि द्वौ ऊर्ध्वभागस्ततो ब्रह्मलोकात् परस्मृतः चतुर्दशैव नियुतानि च पञ्च चौर्ध्व सम्प्रजायोऽस्य गत्यन्तश्चपरस्मृतः ध्रुवाग्रमेतद्व्याख्यातं योजनग्राद्यथाश्रुतम् अधोगदीनां वक्ष्यामि भूतानां स्थानकल्पनां गच्छन्ति प्राणिनो यत्र कर्मभिः नरको रौरवोऽघोरशुकरस्ताल एवं च तप्तकुम्भो महाज्वालशबलोध विमोहनः कृमीच कृमिभक्षश्च लालाभक्षो विशंसनः अधशिराः पूयवहो रुधिरान्धुस्तथैव च विष्टाकीर्णश्च नरको मूत्रकीर्णस्तथैव च तथा वैतरणीकृष्णमसि पत्रवनं तथा अग्निज्वालो महाघोरः सं दंशोधाश्वभोजनः तमश्च कृष्णसूत्रश्च लोहश्चाप्यभिजस्तथा अप्रतिष्ठो धीचिश्च नरकाह्येवमादयः तामसानरका सर्वे यमस्य विषये स्थिताः येषु दुष्कृतकर्माणः पतन्तीह पृथक् पृथक् भूमेरथस्तात्ते सर्वे रौरवाद्यः प्रकीर्तिताः रौरवे कूढसाक्षे तु मिथ्या यश्चाभिशंसति क्रूरग्रहपक्षवादीह्यशक्तः पतते नरः राधो गोध्रो भ्रूणः चक्ष्यग्निदा पुरस्य च स्यूकरे ब्रह्म मज्जेत् सुरापस्वर्णतस्करः ताले पदे क्षत्रियः हत्वा हा, वैश्यंच च मज्जति ब्रह्महत्या चय कुर्याद्यश्च स्याद्गुरुतल्पगः सप्त कुम्भेश्वसौगामी तथा राजभटश्च यः संताप्य देवाश्वणिक्ता जनरक्षिता साध्वीविक्रयकर्ता च यस्तु भक्तं परित्यजेद् महाज्वाले दुहितरं स्नुषां गच्छति वै वेदं विक्रीणते ये च वेदं वै दूषयन्ति ये गुरुंश्चैवमन्यन्ते वाक्शरैस्ताडयन्ति च अगम्यगामी शबलं व्रजेत् विमोहे पतदे घोरे मर्यादां योभिनत्ति वै दुरिष्ठं गुरुदे प्रपद्यते देव देंब्राह्मण विदेषा गुराण वाप्यपूजक रन दूषयदम्क्षे प्रपद्यते पर्यश्ना ब्राह्मण सुहृद विना लालाषे तो दुर्गन्धे नरके गतः। कंडकर्ता कुलश्ष निष्कर्ता चिकित्सकः, आराप्यग्निदा पदते स विशंसनी असत्तिगृहयच तथैवायाज्यजक नक्षत्र जीवद देय्च नरो गचो मुख्य क्षीरं सुराम् चलवणं लाक्षां गन्धं रसं तिलानेवमादीनिविक्रीणन् मार्जारान् पदेत् यत्कुक्कुडान्निबध्नादिमार्जारान् सुकरांस्तथा पक्षिणश्च मृगाञ्चागान् सोप्येनं नरकं व्रजेत् अजाविको माषिषिकस्तथा चक्रध्वजीचयः रङ्कोपजीवको विप्रशाकनिर्ग्रामयाजकः अगारदाही गरधकुण्डाशी सोमविक्रयी सुरापो मासभक्षश्च तथा च विशस्तामहिषादीनां मृगहन्ता तथैव च पार्वकारश्च मूची च यश्च स्यान्मित्रकादकः रुधिरान्धौ पदन्त्ये देह्येव माहुर्मनीषिणः उपविष्टं भोक्तुमध पङ्क्त्यां वै वञ्चयन्ति ये पदन्ति नरके घोरे विड्भुजेनात्र संशयः मृषावादीनरो यश्च तथा प्राक्रोशकोऽशुभः पतते नरके कोरे मूत्राकीर्णे सपापकृत मधुग्राहाभिहन्तारो यान्ति वैदग्नीं नराः उन्मत्ताश्चित्तभग्नाश्च शौचाचारविवर्जिताः क्रोधना दुःखदा ये च कुहकाकृष्णगामिनः असिपत्रवनच्छदकृतो ह्योरभ्रिकाश्च ये कर्तनशु विकृत्यन्त आश्रमप्रत्यवसिदाह्यग्निज्वाले पतन्ति वै भक्ष्यन्ते श्यामशबलैरयस्तुड्वायसैः इष्टापोक्तव्रतालोपाक् सं दंशे नरके पदेद् स्कन्दे ये दिव व्रदिनो ब्रह्मचारिणः पुत्रैरध्यापिता ये च पुत्रैराक्षापिताश्च ये ते सर्वनरकं यान्ति नियतं तु श्वभोजनम् वर्णाश्रमविरुद्धा ये क्रोधहर्षसमन्विताः सर्वे निरयवासिनः उपरिष्ठात्स्थितो घोर उष्णात्मा महान् सुदारुणस्तु शीतात्मा तस्याधस्तात्तपस्मृतः एवमादिक्रमेणैव वर्ण्यमानान्निबोधत भूमेरधस्तात्सप्तैव नरकापरिकीर्तिताः अधर्मसुदयस्ते स्युरन्धता मिश्रकादयः रौरवः रा। प्रथमस्तेषां महारौरव रा। एव च अस्याधः पुनरप्यन्यः शीतस्तप इति स्मृतः तृतीयकालसूत्रस्यान्महाहिर्विविधस्मृतः अप्रतिष्ठश्च दुर्धस्यादवीचिः पञ्चमस्मृतः लोहक्षष्टस्मृतस्तेषा मविधेयस्तु सप्तमः घोरात्वाद्रौरवः प्रोक्तः सोष्णगो दहन स्मृतः सुदारुणस्तु शिदात्मा स्याधस्तात्तपोधमः सवान्निकृन्तनप्रोक्तो कालसूत्रोदिदारुणः अप्रदिष्टे स्थितिर्नास्ति भ्रमस्तस्मिन् सदा स्मृतः अवीचीर्दरुणप्रोक्तो यन्त्रसम्पीडनाच्च सः तस्मात् सुदारुणो लोहकर्मणां श्रयणाच्च सः तथाभूतचरित्वादविधेयस्तु सस्मृतः पीडाबन्धवधात्सङ्गादप्रदीकारलक्षणः ऊर्ध्वा दस्सङ्गतास्ते तु निरालोकाश्च ते स्मृताः दुःखोत्कर्षस्तु सर्वे शुक्यधर्मस्य निमित्तदः ऊर्ध्वलोकैस्समवेदौ निरालोकौ च कूडागारप्रमाणैश्च शरीरैस्तत्र उभभोग समर्थैस्तु सद्यो जायन्ति कर्मभिः दुःखप्रकर्षश्चोग्रस्तु तेषु सर्वेषु वैस्मृतः उपभोगसमर्थैस्तु सद्यो जायन्ति कर्मभिः दुःखप्रकर्षश्चोग्रस्तु तेषु सर्वेषु वैस्मृतः यादनाश्चाप्यसङ्ख्येया नारकाणां तथा स्मृताः तत्रानुभूयते दुःखं क्षीणे कर्मणि वै पुनः तिर्यज्ञो न प्रसूयन्ते कर्मशेषेण तेऽन्ततः देवांश्च तारकाश्चैव ह्यूर्ध्वं चाधश्च संस्थिताः धर्माधर्मनिमित्तेन सद्यो जायन्ति मूर्तयः उपभोकार्थमुत्पत्तिरवपत्तिककर्मदः पश्यन्ति नारकान् देवाह्यधो वक्त्रा ह्यको गदान् नारकांश्च तथा देवान् सर्वान् पश्यन्त्यधे मुखान् अनयोस्तुल्यता यस्माद्धारमाश्च स्वभावतः तस्ूर्धम भाव लोकालोक न विद्यते। येषा स्वाभाविकी संज्ञा लोकालोके प्रवर्तते अधा ब्रुवन् पुनर्वायुं ब्राह्मणा सत्रिणस्तदा ऋषय ऊचुः सर्वेषामेव भूतानां लोकालोकनिवासिनां संसारे संसरन्दीह यावन्धः प्राणिनश्च संख्याया परिसङ्ख्याय तान्न प्रब्रूहि कृष्णशः ऋषीणां तद्वजश्रुत्वा मरुतो वाक्यमब्रवीद वायुरुवाच न शक्यं दिव्यया दृष्ट्या ज्ञातुं ज्ञानेन वा चक्षुषा वै प्रसङ्ख्याधुमदो ह्यन्ते न अनाध्यानादमेयत्वान्नैव प्रश्नो विधीयते ब्रह्मणा संनिदं यत्तु संख्यया तन्निबोधत यस्सहस्रतमो भागस्थावराणां भवेदिह पार्थिवाकृमयस्तावत्संशेकाद्येषु सम्भवः संसेकजानां भागेन सहस्रेणैव सम्मिताः औदका सर्वे निश्चयात् तन्निधार्यतां सहस्रेणैव भागेन सत्वानां सलिलौकसां विहङ्गमास्तु विज्ञेया लौकिकास्ते च सर्वशः यःसहस्रतमो भागस्तेषां वै पक्षिमां भवेत् पशवस्तत्समाज्ञेया लौकिकास्तु चतुष्पदाः चतुष्पदानां सर्वेषां सहस्रेणैव संमिधाः द्विपदास्तत्सहस्रेण संमिधार्मिकाः पुनः सहस्रेणैव भागेन धार्मिकेभ्यो दिवङ्गताः यस्सहस्रतमो भागो धार्मिकाणां भवेद्धिवी संमितास्तेन भागेन स्वर्गोपपादकैस्तुल्या यादनास्तानवासिनः पतिता धर्मविद्वेषात् दुरात्मानो म्रियन्ति ये रौरवेतमसिह्येते शीतोष्णं प्राप्नुवन्ति ते वेदनाकटुकस्तब्धा यादनास्थानमागताः उष्णस्तु रौरवोज्ञे यस्तेजोखोरररसात्मकः तदोऽधनामकश्चापि शीदात्मा सततं तपः एवं सुदुर्लभास्सन्तः स्वर्गे वा धार्मिका नराः एषा सं नीकृता सङ्ख्या चेश्वरेण स्वयम्भुवा गणानादिनिवृत्तैषा सङ्ख्या ब्राह्मीत्वमानुषी हृषय ऊचुः महात्मनस्तपः सत्यो भूतो भव्यो भवस्तथा उक्ता ह्येदे त्वया लाका लाकानामन्तरणच लोकान्तरञ्जयादृक् तन्नो ब्रूहि यथा तथा तेषां तद्वचनश्रुत्वा ऋषीणा मूर्ध्वरेतसाम् स वायोर्दृष्टतत्त्वार्थ इदं तत्त्वमुवाचः वायुरुवाच व्यक्रं तर्केण पश्यन्ति योगात् प्रत्याहारेण ध्यानेन तपःसाक्षयमात्मनः ऋभुः कुमरा संबुद्ध शुद्धबुद्धय व्यपेतकोशा विरजा सतो ब्रह्म सतमा अक्ष संयुक्ता ब्रा ठीगिन ऋषीण बालश शिल तैर्य यथात्रैव सया दृष्टं साम्निध्यं तत्र कुर्वता अग्राह्यमकृतार्थानामालयं चेश्वरस्य यद् ईश्वरपरमाणुत्वाद्भावग्राह्यो मनीषिणां ज्ञानं वैराग्यमैश्वर्यं तपःसत्यं क्षमाधृतिः द्रष्वत्व संबंध मधिष्टातृत्व अव्य दशइदार तस्मेंतिषंधिशंक योगाढ़्रह्मणोनुग्रह रोक विग्रहो भूवा सापतिषे अक्षरं ध्रुवमव्यग्रमष्टमं त्व उपसर्गितं तस्येश्वरस्य चिन्मात्रं स्थानं मायामयं परं मायया कृतमाचष्ठे मायी देवो देवानामुप देवानामुपसंहारस्तत्प्रमाणं हि कीर्त्यदे विस्तरेणानुपूर्व्या जब्रुवतो मे निबोधत त्रयोदशैव नियुतानि दशेशवः भूलोकाभ्रमलोको वै योजनैः सम्प्रकीर्त्यते एका योजनकोटी तु पञ्चाशन्नियुतानि ऊर्ध्व भगवतोढन्तु ब्रह्मलोकात् परं स्मृतं येषोर्ध्वगः प्रचारस्तु गत्यन्तश्च तदस्मृतः नित्याह्यपरि संक्षाताः परस्परगुणाश्रयात् सूक्ष्मा येभ्योऽधिकर्ता संजज्ञे क्षेत्रज्ञो ब्रह्म संस्मितः तासु प्रकृतिमत्सूक्ष्ममधिष्ठा धृत्वमव्ययम् अनुत्पाद्यं परं धामपरमाणुपरेशयम् अक्षयश्चाप्यनूह्यश्च त्वमूर्तिर्मूर्तिमानसौ प्रादुर्भावस्थिरो भावस्थितिश्चैवाप्यनुग्रहः विधिरन्यैरनौपम्यः परमाणुमहेश्वरः स तेजायेषतमसो यः पुरस्तात्प्रकाशकः यदण्डमासीत् सौवर्मं प्रथमं तौ बृहत्तु सर्वतो वृत्तमीश्वरात्तद्व्यजायते ईश्वराद् बीजनिर्भेदः क्षेत्रज्ञो बीजमिष्यदे योनिं प्रकृतिमाचष्टे सा च नारायणात्मिका विभुर्लोकस्य सृष्ट्यार्थं लोकसंस्थानमेव सन्निसर्गसदत्वाच्च लोकधादुर्महात्मनः पुरस्ताद्ब्रह्मलोकस्य ख्यण्डाद्धर्वाक् ब्रह्मणः त्योर्मध्ये पुरं दिव्यं मनमयमनामयं माया तद्विग्रहवतस्थानमीश्वरस्यामितौ जसः शिवं नाम पुरं तत्र शरणं जन्मभीरूणां सहस्राणां शतं पूर्वं योजनानां द्विजोत्तमाः अभ्यन्तरं तु विस्तीर्णं महीमण्डलसंस्थितं मध्याह्नार्कप्रकाशेन परतेजोऽभिमर्दिना शाद काम्भेन महदा प्राकारेणार्कवर्चसा द्वारैश्च दुर्भिः सौवर्णैर्मुक्ता दामविभूषितैः तपनीयनिभैः शुभ्रैर्गाढं सुकृदवेष्ठनं तच्चाकाशे पुरं रम्यं दिव्यं खण्डादिनादितं रम्ये पुरवरश्रेष्ठे तस्मिन्वैहाय भूमिषु नानारत्नविचित्रेषु पताका बहुलेषु च सर्वकामसमृद्धेषु वनोपवनशोभिषु राजतेषु वृहान्तेषु शादकैम्भमयेषु च सन्ध्याभ्रसन्निकाशेषु कैलासप्रतिमेषु च हृष्ठैः शब्दादिभिर्भोगैर्ये भविष्यानुसारिणः प्रासादवरपृष्ठेषु तेषु मो दन्दिसुव्रताः ब्रह्मघोषैरविरथा कथाश्च विविधाः शुभाः गीतवादित्रघोषाश्च संस्रवाश्च समन्तदः संहदाश्चैव मधुला जनाश्रय कृतस्तथा एवमादीनि वर्तन्ते तेषां प्रासादमूर्धनि सहस्रपादप्रासादस्तपनीयमयः शुभः अनौपम्यैर्वरैरत्नैः सर्वतः संविभूषितः वैडूर्यमणिः सप्रभैः बालसूर्यमयैश्चापि सौवर्णैश्चाग्निसप्रभैः चुक्रुशोर्मुनय श्रुत्वा नैमिषेयास्तपस्विनः आपन्नसंशयाश्चेमं वाक्यमूचुः समीरणं ऋषय ऊचुः के तु तत्र महात्मानो ये भवस्यानुसारिणः अनुग्राह्यतमाः सम्यक् प्रमोदन्ते पुरोत्तमे ऋषीणां वचनं श्रुत्वा वायुर्वाक्यमुदैरयद वायुर्वाच श्रूयतां देवदेवस्य भक्तिर्यैरनुकल्पिता ह्रीमन्दस्फूर्जिदा शौर्ययुक्ता लुपाः कर्मणा मनसा वाचा विशुद्धेनान्तरात्मना अनन्यमनसो भूत्वा महेश्वरं तायर्लब्धं रुद्रसालोक्यं शाश्वतं पदमव्ययं भवस्य रूप सादृश्यं गदाश्चैव ह्यनुत्तमं वैश्वानारमुखाः सर्वे विश्वरूपाकपर्दिनः नीलकण्डाश्चिदग्रीवास्तीक्ष्णदंष्ट्रास्तिलोचनाः अर्ध चन्द्रकृतोष्णीषा जडामुकुडधारिणः सर्वे दश भुजा वीराः पद्मान्तरसुगन्धिनः तरुणादित्यसङ्काशा सर्वे रे पीदवाससः पिनाकपाणय सर्वेष्वेदगोवृषवाहनाः श्रियान्विधा कुण्डलिनो मुक्ताहारविभूषिताः तेजस्यधिकर्शिन विभज्य बहुधात्म जरा मृत्यु विवर्जिता क्रीडंद विविधर्भोगा प्राप्य सुदुर्लभान स्वच्छग सिद्धा सिद्धान्यबोधिताशा रुद्राण कोट्यो नैका महात्मनां येभिः सह महात्मा वै देवदेवो महेश्वरः भक्तानुकम्बी भगवान् मोददे पार्वतीप्रियः नाहं तेषां दुरुद्राणां भवस्य च महात्मनः नानात्वमनुपश्यामि सत्यमे माधरिष्वाब्रवीत् पुण्यमित्येदामीश्वराच्छ्रुदाम् अध ते ऋषयः सर्वे दिवाकरसमप्रभाः श्रुत्वे मां परमां पुण्यां कथां त्रयं पकीन्तदः भृशं चानुग्रहं प्राप्य हर्षं चैवाप्यनुत्तमं सम्भाजयित्वा वायुमूचुर्महाबलं ऋषय ऊचुः समीरणमहाभागत्वस्माकं च विभो ईश्वरस्योत्तमं पुण्यमष्टमं त्व उपसार्गिकं तस्य स्थानं प्रमाणं च तथावत्परिकीर्तितं योग धर्मसमृद्धं वै परमं परमात्मनः महादेवस्य माहात्म्यं दुर्विज्ञेयं सुरैरभि स्वेन माहात्म्ययोगेन सहस्रस्यामितौ यस्य भक्तं सुसम्मोहो ह्यनुकम्पार्थमेव च स्वयं जुष्टा या सा प्रतिमशालिनी व्याप्य ज्योत्स्ने चन्द्रस्य विन्यस्ता विश्वरूपिणः विभोतिर्भ्राजतेत्यर्थं देवदेवस्य वेश्मनी महादेवस्य तुल्यानां रुद्राणां तु महात्मनां तत्सर्वं निखिलेनेदं वक्त्रादमृदनिःस्रवः आपीतं खलु भक्त्यास्माभिस्तु सुव्रद नास्ति किञ्चिदविज्ञेय मन्यच्चैवानुगामिनः प्रश्नं देववरप्राण यथा वद्वक्रुमर्हसि सुद उवाच स खलु उवाच भगवान् किं वर्तयाम्यहं यन्मया चैव तद्वदिष्यामि सुव्रताः ऋषय ऊजुः आदित्याः परिपार्श्वे ये सिंहावै क्रोधविक्रमाः वैश्वानराभूतगणव्याघ्राश्चैवानुगामिनः आभूतसम्ब्लवे घोरे सर्वप्राणिभृदाङ्क्षये किमावस्था भवन्त्येदे तन्नो ब्रूहि यथार्थवद विज्ञायेश्वरसद्भावमव्यक्तं प्रभवं तथा वायुरुवाज यत्र पूर्वं गदास्तेदु कुमाराब्रह्मणः सुधाः सनन्दनश्च शनकस्तृतीयश्च सनातनः वोढुश्च कपिलस्तेषा मासुरिश्च महायशाः मुनिः पञ्च येचान्ये ये चान्येऽप्येवमादयः ततःकाले व्यधिक्रान्ते कल्पानां पर्यये गदे महाभूतविनाशान्दे प्रलये प्रत्युपस्थिते अनेकरुद्रकोट्यस्तु या प्रसन्ना महेश्वरीं शब्दादीन्विषयान् भोगान् सं त्यज्याष्ठविधाश्रयात् प्रविश्य सर्वभूतानि ज्ञानयुक्तेन तेजसा विहायपदमव्यग्रं भूदानामनुकम्पया तत्र यान्ति महात्मानः परमाणुं महेश्वरं तरन्ति सुमहावर्तां जन्ममृत्योदगां नदीं ततः पश्यन्त्यपर्वाणं परं ब्रह्माणमेव च देव्या वै सहिताः सप्त या देव्यः परिकीर्तिताः यत्तत्सहस्रं सिंहानामादित्यानां तथैव च वैश्वानराभूतगणा व्याघ्राश्चैवानुगामिनः आवेश्यात्मनि तान् सर्वान् सङ्ख्यायोग्यभवांस्तथा लोकान् सप्त इमान् भूयो महाभूतानि पञ्च विष्णुना सह संयुक्तकरोति सरुद्रो यः साममयस्तथैव यजुर्मयः स एष ओधः प्रोतश्च बहिरन्तश्च निश्चयात् ये को हि भगवान्नाधः प्रभवश्चान्धकृद्विजाः ततस्ते ऋषयः सर्वे सुसत्यं श्रवसः सम्यगारोप्याग्निं तदात्मनि कर्मणा मनसा वाचा विशुद्धेनान्तरात्मना अनन्यमनसो भूत्वा प्रपद्यन्ते महेश्वरं व्रतोपवासनिरताः सर्वभूतदयापराः योगं त्वनुयमं दिव्यं प्राप्तन्तैश्चिन्नसंशयैः प्रपद्यपरया भक्त्या ज्ञानयुक्तेन तेजसा तैर्लब्धं रुद्रसालोक्यं शाश्वतं पदमव्ययं यः पठेत्तपसा युक्तो वायुप्रोक्तामिमां श्रुतिम् ब्राह्मणः क्षत्रियो वापि वैश्यो वा स्वक्रियापरः लभते रुद्रलोकं वै कारणं लोककारणं विनिवृत्ते तदा सर्गे प्रकृत्यावस्थितेन वै तदात्यन्तपरोक्षत्वादृष्टत्वाच्च कस्यचिद् अनाख्यानादबोध्यत्वादज्ञानाज्ञानिनामपि दा आकदागतिकत्वाच्च ग्रहणं तन्न विद्यते भावग्राह्यानुमाना चिन्तयित्वेदमुच्यते स्थिते तु कारणे तस्मिन्नित्ये सदसदात्मके अनिर्देश्ये प्रवृत्तिर्वै स्वात्मिका कारणेन तु एवं सप्तद्विरभ्यस्थाक्रमात्र कृतयस्तु प्रत्याहारे तदा सर्गे प्रविशन्ति परस्परं येनेदमावृतं सर्वमण्डमप्सु प्रलीयते सप्तद्वीपसमुद्रान्तं सप्त लोकं सपर्वतम् उत का वरणं यच्छज्योद्दिश्या लीयदे दु यद यत्तेजस्सं यद्वायव्यं चावरणमाकाशग्रसते तु तद् आकाश्यावरणं यच्च भूदादिर्ग्रसते तु तद् भूदादिं ग्रसदे चापि महान्वै बुद्धिलक्षमः महान्तं क्रसदे व्यक्तं गुणसाम्यं ततः परं येदौ संहारविस्तारौ ब्रह्मा व्यक्तौ ततः पुनः सृजदे ग्रसदे चैव विकारात्सर्गसंयमे संसिद्धकार्यकरणाः संसिद्धाज्ञानिनस्तु ये गत्वा जवं जविभावे स्थानेष्ेषुप्रः संयमाद प्रत्या हारेधियुज्यन्ते क्षेत्रज्ञाकरणैपुनः अव्यक्तं क्षेत्रमित्याहुर्ब्रह्मक्षेत्रज्ञ उच्यते सा धर्म्य वैधर्म्यकृतसंयोगो नाधिमास्तयोः एवं सर्गेषु विज्ञेयः क्षेत्रज्ञेष्विह ब्राह्मणाः ब्रह्मविच्चैव विज्ञेयः क्षेत्रज्ञानात्पृथक विषया विषयत्वं च क्षेत्रक्षेत्रज्ञयो स्मृतं ब्रह्मा त्वविषयो विषयः क्षेत्रमुच्यते क्षेत्रज्ञाधिष्ठितं क्षेत्रं क्षेत्रज्ञार्थं प्रचक्षते बहुत्वाच्च शरीराणाम् शरीरी बहुधा स्मृतः अव्यूहात् शङ्कराच्चैव ज्योतिर्यच्च व्यवस्थितं यस्मात् प्रतिशरीरं हि सुखदुःखोपलब्धिता तस्मात् पुरुषनानात्वं विज्ञेयं तु विजानता यदा प्रवर्तते जैषां वेदानां चैव संयमः स्वभावकारिदा सर्वे काले महदा तदा निवर्तन्ते तदा तस्मिन् स्वयं भुवः सः सायुज्यकैसर्वैर्ब्रह्मलोकनिवासिभिः विनिवृत्तेस्तदा तेषां स्थितेरात्मनिवासिनां तत्कालवासिनां तेषां तत्र वै दोषदर्शिनाम् उत्पद्यतेथ वैराग्यमात्मवादप्रणाशनम् भोज्य भोक्तृत्वनानात्वैस्तेषां तद्भावदर्शिनां पृथक् ज्ञानेन क्षेत्रज्ञास्तदस्ते ब्रह्मलौकिकाः प्रकृतौ कारणातीता सर्वे नानाप्रदर्शिनः स्वात्मन्येवावतिष्ठन्ते प्रशान्ताद्दर्शनात्मकाः शुद्धा निरचनासे चेतना चेतना तरीण स्मृतान स्तुते निर्गुणत्म प्रकृत्य दें व्यतिक्रदाकृत प्रोक्त प्रतिसर्गस्वयंवा वर्णाश्रचार युद्ध प्रतिसर्गम शृणों यहाजेव साोक्यं भक्तिमागद्वर अमद्य पश्चूद्रो भक् जिदेद्रिय आभूद संयी अप्रदी खादल गणपत्यं सलभदे स्थान व सार्वकालिकं मध्यपो मद्यपै सार्धं भूतसङ्खैश्च मोददे सेव्यमानो महीपृष्ठे मर्त्यानां वरदो भवः इति हो वाच भगवान्वायुर्वाक्यमिदवरम् इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते उत्तरभागे चतुर्थ उपसंहारपादे शिवपुरवर्णनं नाम द्वितीयोऽध्यायः ओम्